ुमत्यै पुरोगाशमष्टाकपालम् निर्वपति येन प्रत्यन्तः संज्ञाया अवशीयन्ते तन्नैरतमेककपालम् इयम् वा अनुमतिः इयम् निरलतिः नैरृतेन पूर्वेण प्रचलति आत्मानमेव निर्लयम् पूर्वान् निरवदयत् एककपालो भवति एकथैव निर्णयम् निरवदयते यतोत्वाकालिभवत् येयुः तद्द्रोभोत्त्वाद्यरणोत्थाय अध्वर्यम् च यजमानम् च हन्यात् हे स्वाहुयम् जानय इत्याह आहुत्यै वै न कुं शमयति नार्तिमाच्छत्यद्भर्यम् न यजमानः एकोन्मुखेन यन्ति तद्धि निलत्यै भाग्धेयम् इमाम् दिशयन्ते एषा स्वकृतय जुहोति प्रदेवाः एतद्भि निर्वृत्यायतनम् स्वगेवायतने निर्दयम् निरमदे एतदेव निवृत्ते भागयित्याह निर्दिशत्व भूते हविष्पत्विषयित्याह भूतिमेवो वर्तते मुञ्चमगुम्हसैत्याः अगुम्हतये वैनम् मुञ्चते अङ्गुष्ठाभ्याम् जुहोदि अन्धद एव निर्वजम् निरमदे कृष्णम् वाधकृष्णदोषम् दक्षिणा एतद्विवृत्ते रूपम् रूपेणैव निर्वृतिम् निरवदयते अप्रतिक्षमायन्ते निर्वृत्यान्तलिहित्ये स्वाहानमोलैरम् चकारे त्रिपुणे त्रिकारिकपत्ये विभोति आहुदेव न पश्यन्तो गादिकपत्यमुपावर्तन्ते आनुमतेन प्रचलति इयम् वा अनुमति इयमेवास्मैराज्यमनुमन्यते धेनम् दक्षिणा इमामे कुरुते आदित्यम् चलम् निर्भवति उभये स्वेव प्रजास्वभिषिच्यते दे, देवेषु च मानुषेषु च परोदक्षिणः परो याज्ञकम् समर्थ्ये आज्ञावैष्टवमेकादशकपानन्यर्भवते अग्निः सर्वा देवताः पिष्टवियज्ञः देवताश्चैव यज्ञम् चावलन्धे दे, पामनाभिदक्षिणः यद्बहिनाःग्नेयः यद्वामणः हेणवेष्टवः समृद्धे अग्नेशोमीयमेकादशकपालन्यर्भवते अग्नेशोमाहाभ्याम् वा इन्द्रोवृत्रमहन् हरग्ने सोमीयमेकादशकपालन्यर्भवते पार्थग्नमेव विजित्ते हिरण्यदक्षिणासमृद्ध्ये इन्द्रोवृत्रकम् हत्वा देवताभिष्टेन सव्याहार्थ्य स ए न वैन्द्राज्ञमेकादशकपालमपश्यत् अन्यदपत् तेन वैष देवताश्चेन्द्रियम् चावारुन्ध याज्ञमेकादशकपालम् निर्पपति देवताश्चैवजपालोपरुन्धे ऋषभो बहि दक्षिणा यद्बहि तेनाग्नेयः यदिभः तेनैन्द्रः समध्ये आग्नेयमष्टाकपालम् निर्पपते हैन्द्रन्द्रे यदा ज्ञेयो भवति अग्रमे यज्ञमुखम् यज्ञमुखमे पुरस्तान्द्रन्दे इन्द्रियमेवाबन्धे ऋषभो भयि दक्षिणा यद्वयि एनाग् यदृषभः तेनेन्द्रः ते ते समर्थे यावते सर्वे प्रजावोषधीनाबहुधा नाबाष्णन् ताः पराभवन् आग्नेनम् भवति हुताद्याय यजमानस्यापराभावाय प्रेवा वोषधे श्वाजिमयोः ताविन्द्राग्नीतलेना तावेन मयेन्द्राग्नम् द्वादशकमालम् निरप्रणाताम् यमेन्द्राग्नत्युजित्ते द्वादशकमालो भवति द्वादशमासाः संवत्सरः संवत्सरेणैवास्मान्नवृन्धे हैष्वदेव ऐश्वदेवम् वा अन्नम् अन्नमेवास्मै ये स्वरदेजि प्रथमजो वत्सो दक्षिणा समर्थ्ये सौम्यग् यस्यावाकम् चलम् निर्वपदे सोमो दक्षिणा सौम्यगो हि देवदयावादः समृद्धे सरस्पत्ते धनुलम् निर्वपदे हरस्पदे धनुम् विफुलौका गो दक्षिणासमृद्ध्यै हे दिवागेक्य मुखादृध्याः योर्देवता गायति अष्टावेतानि हवेकं शिभवन्ति अष्टाक्षरा गायत्री गायत्रोऽग्निः मुखादृध्याग्नेदेवतायै नैति वै प्रजापति प्रजा, प्रजा, प्रजा, प्रजा असृजता सृष्टा न प्राजायन्ता सोऽज्ञरकामयता अहमि प्रजनयेयमिति स प्रजापदकेषु चमदधात् शोशोचत्प्रजामिच्छमानः सो तस्माद्यम् च प्रजापुनः प्रजा जना सा भोशोचतः प्रजामिच्छमानौ सा स्वग्निमप्यसजते साग्निरभ्ययेत् सोमो नेतोऽर्थात् सविधा प्राजनयत् सरस्वती वाचमरुधात् पोषा पोषयत् देवा एते सम्वत्सरस्य प्रयुज्यन्ते एवा पुष्टिपतयः संवत्सरो वेत् प्रजापतिः संवत्सरेणैवास्मै प्रजा, प्रजा प्राजनयत् आ प्रजा जाता मरुतोभिनन् अस्मान् विनप्रायुक्षते मारुतकम् सप्तकपालमपश्यते अन्यद ततो वै प्रजाभ्यो कल्पत जन्मा ऋतो निरुप्यते यज्ञस्य कृत्यै प्रजानामघाताय सप्तकपालो भवति सप्तजना वै मरुतः कलश एवास्त्रैविषम् कल्पयति स मरुतस्ता अवधिषुः कथमपराश्रजेति तस्य सुष्माण्डम् भूतम् निरवर्तत तद्यदहरते तदपोषयत् तत्प्राजायत आण्डस्य वा एतद्रूपम् यदामिक्षाः यद्यद्धरति प्रजा एव तद्विजमानः प्रजाः र एवास्मै प्रजनयति वाजिनमानयति रस्वैव प्रजातासुरे भवति रजा एव प्रजातामुतः परिगृह्णाति देवासुराः संयत्ता सन् सोऽनासुराञ्जेष्ट माम् द्वितीयमिति सोमोऽ मया राज्ञा जय शचयति माम् तृतीयमिति सविता मया प्रसूता जय शचयति माम् चतुच्छेमिति सरस्वतीयम् मोहन्धास्यामेति माम् पञ्चममिति घोषा मया प्रतिष्ठया जयश्चयति सोमे न राज्ञा सवित्रा प्रसूताः सर्वस्वतीयमदधा प्रतिष्ठासीत् ततो वेदेवाव्यजयन्त हवे गुंशे लोप्यन्ते अभिजित्योत्तरवेदिमुपवपदे पशवो वा उत्तरवेदिः तर्हि पशवः सर्वोद्बधिर्भवति माता पिता पुत्रः तजेव पुल्बङ्गभोजरायु अदेव तन्विसम् एषा परिह सन्नद्धम् भवति एजिमे लोकाः एष्वेव लोकेषु प्रतितिष्ठति एकथा पुनः सन्नद्धम् भवति एकैवाक्ययम् लोकः अस्मिन्नेव तेन लोके प्रतितितिष्ठति ऋथवो भवन्ति प्रथमजामेव पुष्टिमवृन्दे प्रथमज वत्सो दक्षिणासमृद्ध्यै पृशदाज्यम् गृह्णाति पशुभावे पृषदाज्यम् पशवमेवावृन्धे पञ्चगृहीतम् बहुन्धवा भवति पान्ता पशवः बहुरूपम् भवति बहुरूपाहि पशवः समृद्धे अग्निम् मन्थन्ते अग्निमुखावे प्रजापयः प्रजा असृजता यदाग्निम् मन्थन्ते अग्निमुखायेव तत्प्रजा नवा नो याजाः अष्टौ हवे गुंषे द्वाधारौ द्वावाद्यभागौ त्रिपुंशत्सम्पद्यन्ते त्रिपुंसदक्षराविराज अन्नम् विराज हिरादेवान्नाद्यमवरुन्धे यजमानो वा एककपालः तेजाज्यम् एककपालाज्यमानयते यजमानदेव ते तेजसा समर्धयति यजमानो वा एकजपालः पशवाज्यम् यदेकपाल आज्यमानयति यजमानमेव पशुभिः समर्धयति यदल्पमानयेत् अल्पायेनम् पशवो भुञ्जन्तौपतिष्ठेरन् यद्भक्वानयेत् बहवरेणम् पशवो भुञ्जन्तौपतिष्ठेरन् बहक्वायीनाविप्रष्ठम् कुर्यात् बहवदेवेनम् पशवो भुञ्जन्त उपतिष्ठन्ते यजमानो वा एककपालः यदेककपालस्यावद्येत् यजमानस्यावद्येत् उक्त्वा माद्ये यजमानः प्रवामीयेत सहृदयो दव्यः सकृतिबहिसुवर्गो लोकः भूत्वा विजुहोति यजमानमेव सुवर्गम् तेजसा गमयित्वा तेन सा समर्थयति यजमानो लेखकपालमाहवणीये जिहोति विजमानमेव सुवर्गम् लोकम् गमयति यद्भ्यस्तेन विभुयान् स्वर्गाल्लोकाद्भिजमानमोविध्ये श्रुता जिहोति स्वर्गस्य लोकस्य समष्टि यत्प्राम्पद्येत देवलोकमभिजयेत् यद्दक्षिणापितृलोकम् यत्प्रत्यगे से रक्षाकम् सेत्यकम् वन्यः यदुदङ्गे मनुष्यलाकमभिजयेत् प्रतिष्ठितो हो तव्यः ये प्रतिष्ठन्त्यावापृथिवे प्रतिष्ठतः यावापृथिवेतवः ऋतो न यज्ञः यज्ञम् यजमानः यजमानम् प्रजाः तस्मात् प्रतिष्ठितो हो तव्यः वाजिना विजते सूर्यः एवै वाजिनः तानेव तद्विजते अथो खल्बाहुः न्दागुम् शिवे वाजिनये तद्यजते यत्सा मे वा इन्द्रस्य हरि सोमपानो हरियोपरिधय आधानम् वाजिनम् वा विधेयम् प्रसत्यपरिधेञ्जभुयाज अन्तराधानाभ्याम् घासम् प्रयच्छेत प्रसत्यपरिधेञ्जभोजे निराधानाभ्यामेव घासम् प्रयच्छते वाजिनमानयते प्रजा वेपोवाजिनम् प्रजास्वेरे दधाति समभूय भक्षयन्ति एतत्समपि अथ आक्रमेतोदशते यजमान उत्तमो भक्षयति पशभोजे वाजिनम् यजमान एव पशून् प्रतिष्ठापयन्ति प्रजापतिस्सविता भूत्वा प्रजा असजता कालेनवच्यमन्यन्त स्मादपाः आवरुण भूत्वा प्रजावरुणेनाग्राहयत ताः प्रजावरुणगृहीताः प्रजापतिम् नाशमिच्छमानाः सवेतान् प्रजापतिर्वप्रकाशान् पश्यते ता ताञ्जयापदे प्रजावरुणपाशालमुञ्चरते यद्वर्णप्रकाशान् वृत्युन्ते प्रजानामवरुणग्राहाय बाहुन्य प्रासेत प्रा, सजताम् द्वितीयान् ततो वेदप्रजानाम् दक्षिणम् बाहुम् प्रासारयत् तद्वितीया दक्षिणतो वेदिमुदन्ते प्रजानामेव तद्यजमानो दक्षिणम् बाहुम् प्रसारयते तस्मात् साक्यवस्मिर्वाको भयाबाहुः यज्ञाभिजितज्ञस्य प्रथमात्रा असम्भिन्ने भवतः अस्मा प्रथमात्रम् विंसौ उत्तरस्याम् वेद्यामुत्तरवेदिमुपवपति अशुभो वा उत्तरवेदिः पशो ने वा वृन्ते असोयज्ञपरुषोऽन्तरित्ये एतद्ब्राह्मणे अधि प्राणापानौ वा एतौ देवानाम् ्राग्नेन्द्राज्ञा भवते प्राणावेन्धे भोजोबलम्बायौ देवानाम् ऋन्द्राग्नेन्द्राज्ञा देवाना। भवति भोजोबलमेवावरुन्धे मारुत्यामिक्षा भवति वारुण्यामिक्षाः मेषे च मेषश्च भवतः एव पर्यावरणपाशान्मुञ्चति क्षते प्रजापतिमन्नाद्यन्नोपनमते शकेतेन हविषान्नाद्यमवारुन्धापरः शतानि शमेपर्णानि भवन्ति अन्नाद्यस्यावरुद्ध्यै सौम्यानि वै कलीराणि सौम्या खलु वा आहुजि वा वृष्टिम् चावयति भवन्ति सौन्द्रीवाहुत्यादिवा वृष्टिमाले एककपाला भवति वृदानाम् कन्वायुषङ्करम्भपात्राणि भवन्ति जाता एव प्रजावरणपाशान्मुञ्चति एक एकमतिरिक्तम् न लिष्यमाणा एव प्रजावरणपाशान्मुञ्चति उत्तरस्याम् वेद्यामन्यानि हवेकम् साधयति दक्षिणायाम् मारु अपधुरमेवेनाथो गोचे वासामवहरति तस्माद्ब्रह्मणश्च क्षत्राश्च्यतापक्रमणैः मारुत्या पूर्वजा प्रचलति अनन्ततमेवायुजते वारुण्योत्तरया अनन्ततमेव वरुणमायुजते यदेवाधर्यः करोति कर्पदि करोति तस्मात् करोति तत्पापीरा अथो तप एवमुपनयति निर्जारकम् सन्तन्न प्रब्रूयात् क्रियाम् ज्ञानमनु असौ मे जारयति निर्दिशयत् निर्दिश्य एवम् वरुणपाशेण ग्राहयति हवामे पत् आपत्वाख्या्रूयाम सैमा आत्मन वे भत्तेथोदित विजमानदेववत्यो वाराः वनीयः भ्रातुर्यदेववत्यो दक्षिणः यदा वनीय जुभुयात् विजमानम् वर्णपाशेन ग्राहयेत् दक्षिणेऽज्ञौ जुहोति भ्रातुर्यमेव वर्णपाशेन ग्राहयति शूर्पेण जुहोति अन्यमेव वर्णवैयजने शीर्षम् चिरिधाय जुभोति शीर्षत एव वर्णवैयजरे प्रत्यम् तिष्ठन् प्रत्यङ्गणपामुच्यते अक्रन्कर्म कर्मकर्मेत्याः देवानुरवदाय अरुणागृहानुपप्रेते दिवावेतनाः वरुणगृहीतम् वारे तद्यज्ञस्य यद्यजथा गृहीतस्यातिरिक्ष्यते तु निष्कासश्च पुषैश्चिष्कासेन तामपृथमुति वरुणगृहीतेनैव वरुणमवेचते अपोमपृथवैति अक्षुवे वरुणः साक्षादेव वरुणम् भवेचते प्रति वर्णस्य वाशुरीत्याह वरुणभाषादेव अप्रतीक्षमायन्ते वरुणस्यान्तरिहत्वमहेत्याः समिधे वाज्ञन्नमस्यन्त उपायन्ति तेजोसु तेजो महित्याः तेजरे वाक्रन्धत्ते देवासुराः संयत्तासन् सोऽज्ञरब्रवीत् ममीकवते समोह ताम् प्रीणयिताम् अथासुराम्युपविश्य चेत् ते देवा अग्निवेरीकवते पुरोढाशमष्टाकपालन्य सोऽज्ञरीतवान् स्वेन भागधेन प्रीतः यतोर्थानीकान्यजनयताम् ततो देवाभवन् परासुराः यदग्नेगपते पुरोडाकमष्टाकपालन्यर्गमति अग्निमेवानेकवन्तग्निश्वेन भागेलेन प्रीणाति सोऽ चतुर्थानीकानि जनयते असौ वा नित्योग् तस्य रस्मयोनीकानि साकंसौर्येणाभ्यता निर्गमति साक्षादेवास्मा अनेकानि जनयति ते सदाः पराजितायन्तः ता द्यावापृथिवीरूपाः श्रयन् ते देवामरुद्भ्यः सान्तवनेभ्यष्टरुन् निरन् तान् द्यावापृथिवेभ्यामेव भयदः समगवन् निर्मरुद्भ्यः सान्तमनेभ्यष्टरुन् निर्मपते द्यावापृथिवेभ्यामेव खलु भयथो इदमाभ्यादुर्व्याम् सन्तपति चरुर्भवति सर्वतदेवेनान् सन्तपति हे देवाश्वादीनः सन्तः सर्वासाम् दुग्धे कृतमेधीनिम् चरुन्निरवन् आशिता देवाद्योपवशामः कस्य वा एतम् कस्य वा श्व भवितेति न शितो हवने ते ब्रुवन् तस्मा इमगुम्भो मरुद्भ्यो गृहमेषुभ्यरित्यब्रुवन् तम् मरुद्भ्यो गृहमेवभ्यो दृहो ततो देवाभवन् परासुराः यस्यैवम् विदतो मरुद्भ्यो गृहमेषुभ्यो गृहे दुक्मते भवत्यात्मनाः पराः स्यभ्या भवति यत् ते यज्ञस्य पाकत्रा क्रियते पशव्यम् तत् यन्नेध्वा मरिहद्भवति न सा विधेनेरन्वाः न प्रजा युज्यन्ते नानौ राजाः आज्ञभागौ यजते यज्ञस्यैव लक्ष्मणेणाम् तरयति मरुतो गृहमेथिलो यजति भागधेन नैवेन् समर्थयति अज्ञस्वष्टगणमिदने प्रतिष्ठित्यै भवति शभो वायिणापरिष्टा प्रचतिष्ठते यत्पत्ने गृहमेधीयस्याश्नी स्यात् वित्तस्य निज्ञेत यन्नाश्मीरात् अग्रमे धीयः स्यात् नाश्चरिज्ञा व्यर्थ्येन प्रतिवेशम् भजेतुः तस्याश्नीध्ये भवति नाश्चरिज्ञा व्यर्थ्यते ते देवादिषमेधीरे नेष्ट आशिता अभवन् आञ्जताभ्यञ्जत अनुवत्सा न वासरन् हेभ्योऽसुराः कृतम् प्राहिन् सा देवमभित्वा असुरान् तोलगच्छत्ेष्व आशिता भवन्ति आञ्जते अभ्यञ्जते अनुवत्सा भ्रातुव्यामेव तद्यजमानः कृषम् प्रहिणोति हे देवारुहमेधीय नेष्ट्वा इन्द्रायनिष्कासमिरुध्य अस्मानेव स्व इन्द्रो निगतभागमुपावर्तितेति तानिन्द्रो निगतभागमुपावर्तत इन्द्रायनिष्कासनिषर्ध्यात् इन्द्रदेवेन निकटभागमुपावर्तते व्यारुहपत्ये विभोपि नैवेदकम् समर्थयतिषत्कार्य इन्द्रो वृत्तकम् हत्वा पराहम् परावतमगच्छत् अपाराधिमितमन्यमानः सोऽ ब्रवीत् कलिदम् वेदिष्यते हे ब्रुवम् मरुतो वरम् वृणामहे अथ वयम् वेदाम अस्मभ्यमेव प्रथमकम् हरिण्यरूप्यादा इति तदेन मध्यक्रीडन् तत्क्रीडिताहम् क्रीडित्वम् तन्मरुद्भ्यः क्रीडिद्भ्यः प्रथमकम् हरिण्यरूप्यतेऽपि चित्ते सागम् सोऽनाम्भवते एतस्मिन् वै लोकेन्द्रो वृत्रमहन् समर्थ्ये एतद्ब्राह्मणांशे एतशता ब्रह्मणेन्द्राग्नः अजेष्ठन्द्रश्चरद्भवति उद्धारम् वा एकमिन्द्रमुदाहरता कृत्रम् हत्वा अन्यासदेवतास्मृति यदेथ इन्द्रश्चरद्भवति उद्धारमेव तञ्जमानमुद्धरते अन्यास प्रजास्मति ऐश्वकर्मण एकवादो भवति विश्वान् एव तेन कर्माणि विद्यमानो वृन्धे हैश्वदेवेन वै प्रजापतिः सावरुणप्रघासेऽर्वरुणपाशान्मुञ्चत् साकमेधे प्रत्यस्थापयत् त्र्यम्बके रुद्रम् निरपादयत इति निर्गेण सुवर्गम् लोकमगमयत् यद्वैश्वरेवेन हि ते प्रजादेव तद्यजमानः सजते सावरुणप्रघासेऽर्वणपाशान्वञ्चति साकमेधे प्रतिष्ठापयति त्र्यम्बके रुद्रन् निरपदयत् ेन सुवर्गम् लोकम् गमयति दक्षिणतः प्राचीनावीते निर्वमते दक्षिणा वृद्धिपितलादृत्य तत् उत्तरदेवोपीयन्दवे हि देवाश्च पितरश्चन्ते अथोजदेव दक्षिणार्जयति तेन दक्षिणावत संवत्सरमेव प्रीणाति पितृभ्योपरिषद्भ्यो धानाः मासा वै पितलोपरिहतः मासानेव प्रीणाति यस्मिन् भारतौ पुरुषः प्रमीयते सोऽष्मिल्लोके भवति बहुरूपा धाना भवन्ति बहुरात्राणामभिचित्ते पितृभ्योऽग्निष्वात्ताभ्यो मन्थम् अर्धमासा वै पितलाग्निष्पात्ताः अर्धमासालेव प्रीणादि अभिमान्यानि दुग्धे भवति साभितदेवत्यम् दुहे यत्पूर्णम् तन्मनुष्याणाम् उपर्यद्धो देवानाम् अर्धः पितनाम् अर्ध उपमन्थति अर्धोऽपितनाम् एकजोपमन्थति एकाकि पितनाम् म् गच्छति इमाम् दिशम्मे निमुन्ति उभये हि देवाश्च पितरश्चेद्यन्ते यदुस्वक्तिर्भवति सर्वा यदृशः पितरः अखाता भवति खाता हि देवानाम् अग्निराधीयते अन्ततो हि देवानामाधीयते वर्षीया निध्वयुद्धवति व्यावृत्यै परिश्रयते अन्तरहितो हि पितृलोको मनुष्यलोकात् यत्परुषदिनम् तद्देवानाम् यदन्तरा तन्मनुष्याणाम् यत्समूलम् तत्पितृणाम् समूलम् वैषद्भवति व्यावृत्त्यै दक्षिणापिता दक्षिणावृद्धिपितृणाम् त्रिःपरिजयति तदीरेव इतो लोके पितरः तानेव प्रीणाति त्रिः पुनः परिजयति षट् सम्पद्यन्ते षड्वा ऋतवः ऋतोरेव प्रीणात् पर्प्रस्परैयात् प्रमालिको इदमानः स्यात् व्यन्न गृह्णीयात् अनायतडः स्यात् तोष्टेवन्यश्चेत् न प्रमालिको भवति नानायतनः ना क्षत्रेन् परिधेन् परिदृद्यात् यन्न परिदध्यात् रक्षाकम् च यज्ञगम् हन्यः तौ परिधे परिदधाति रक्षसापद्ये अथो मत्योरेव यानमुत्सजते यत्रेण त्रेणि हवेदश्च्युताहरे याकम् साकम् प्रमीयेरन् एकैकमनोचीनाहन्यहरन्ति एकैकरेवैजामन्वम् च प्रमीयते कश्यपकशिपव्याय उपवर्गण उपवर्घण्याय आञ्जनमाञ्जन्याय अभ्यञ्जनमभ्यञ्जन्याय यथाभाग्यमेवञ्जेनाले अज्ञले देवेभ्यः पितृभ्यः सद्यमानायानुबूेत्याह भवे हि देवाश्च पितरश्च एकामन्वाः एका हि पितराम् पुतरन्वाः तर्हि देवानाम् आधारावाधारयते यज्ञवर्षोरणान्तरिते म् वृणेत् न होतारम् यदारटेरम् वृणेत यद्धोतारम् प्रमालिको यजमानः स्यात् प्रमाजिको होता तस्मान्न वृणेत् यजमानस्य होतर्गापेचारेण प्रजाया यजते दयालैवर्हि प्रजा एव मृत्योऽनुच्छजते आद्यभागो यजते यज्ञस्यैव लक्ष्मणीनान्तरयति प्राचीनावेते सोमञ्जुतये कृतदेवत्या हि एषा हुतिः पञ्चतत्त्वोपद्यते पञ्चश्चेता देवताः ते पुरोनुवाक्ये याज्ञा देवतावषक्ताः सा एव प्रीणाति सन्तदमपद्यते कृतो नागुंसन्तत्ते वैमेभ्यः पूर्णया पुरोनुवाक्ययाः प्रणयति द्वितीयया गमयति याच्यया लोके पितरः अह्मयेवनान् मूर्णया पुरोनुभाव्यनयति आत्रिरे द्वितीयना नैवेयागमयति दक्षिणतोपदायन्नमतिर्व्यावृत्त्यै आस्वधेत्याश्रावयति अस्तु स्वधेति प्रश्नाश्रावयति स्वधा मयि दिवशकरोति स्वधाकारो हि पितृणाम् सोमाग्रे यजति सोमप्रया जाहि पितरः सोमम् पितरवन्त संवत्सरो वे सोमपितर्वान् संवत्सरमेव तद्विजति पितरेण परिहदतो यजति एवै यज्वालः ते तानेव तद्यजते अग्निङ्गव्यवाहनम् यजति य एव पितरणामग्निः तमेव तद् यजति अशो यथा व्यज्ञस्व चगतम् यजति तादृगेव तदे एतत्प्रेतदे तत्त्वा तस्मादा द्वितीया पुरुषान्नामन गृह्णन्ति एतावन्तो हे यद्यन्ते अत्र पितरो निष्क्रामन्ति येषामेव मनुष्याणान्ति स्वामे स्वामेव तद्दिश निष्क्रामन्ति आहवनीय उपतिष्ठन्ते येवास्मै तद्भ्रमते तत्सत्याहवनीयेतु आतमिदोरुपतिष्ठन्ते अग्निमेवोपभ्रष्टारम् कृत्वा निरवदयन्ते अन्तम् वा एते प्राणानाहङ्गच्छन्ति तिष्ठन्ते सन्दृशन्त्वा वयमित्याह प्राणो वेदन्ते प्राणमेवात्मम् दधते योजानविन्द्रदेही इत्याह प्राणमेव पुनरयुक्ता अक्षन्नमेव दन्त हीति कारिकपत्यमुपतिष्ठन्ते अक्षन्नमेवदन्ता सत्त्वोपतिष्ठामः इति वा वेददाः अमीमदन्तपितरः अमेव दन्तसत्त्वाभिप्रपद्यामयति भावेशताः अवः परिहञ्चते मार्जयत्येवेनान् अथो दर्पयत्येव प्रजया पशुभिः य एवम् वेद अवः रावणो यादौ यजते प्रजा वै बलिभिः प्रजा एव ीणाति न पत्यन्वास्पेयाजयन्तिपत्यन्वासीत यत्संयाजयुः प्रमानुपा स्यात् तस्मान्नान्वास्पेयाजयन्ति पत्यैकोऽपि सारा प्रतिपोरुषमेकपाठान्निर्वमते जाता एव प्रजा रुद्रा निर्वचयते एकवचरिक्तम् चरिष्यमाणादेव प्रजा रुद्रा निरवतरत् एकपाला भवन्ति एकथैव रुद्रम् निरवतरत् नाभिघारयति यदभिघारयेत् अन्तरवचारिणकम् रुद्रम् कुर्यात् एकोन्मुखेन यन्ति तद्धि रुद्रस्य भागधेयम् इमाम् एषा विरुद्रस्य च स्वायामेव दिशि रुद्रम् अग्रवौ आहुक्तेनातिष्ठता असौ ते दिशे अद्य मम ब्रूयात् न ग्राम्याम् पुसो हिनस्ते नारण्यान् सुहोते एतव अग्नीनाम् पद्मीशो नाम अग्निवत्तेव जुहोति मध्यमेन वर्णेन जुहोति ृघेषा खलु अन्तमेनैव होतव्यम् अन्तत एव रुद्रम् निरवदयते एवते रुद्रभागः सह स्वस्राम्बिकयेत्याः शरद्वा अस्याम्बिका स्वसाः अयावा एतस्ति यगुम् हिनसि अयैवैनगम् सहशमयति भेदजम् गमयित्याः अवाहम्बरुद्रपतिमहेत्याह आश्रमयवेतामाशात् यदामह इत्याह मृत्योर्मुक्षी न मामदाद्रिवा वेतदाः उत्किरन्ते भरः स लेप्सन्ते मोके गत्वा सजन्ते यथा जनयते वदते एतदे रुद्रभागैत्याः निरवत्यै अप्रजे क्षमायन्ते अपप्रभञ्जते वृद्धस्यान्तरिहृत्यै लायेते यस्माल्लोकाच्यवन्ते हे प्रम्बेश्चरन्ति आदित्यम् चरम् पुनरेत्य निर्लपते यम् वाजिनिः अस्यामेव